हरिओं श्री सीताचंद्रभ्याम नम अथ अत्मय बालकांडे द्वितीय सर्ग श्री पार्वती उच धन्यस्मी अगृहीतास्मी कुर्ता जगत प्रभो विच्छि में संदेह ग्रंथिभवदन अनुग्रह सन्मुखा ज्वलित राम तत्त्वामृतरसायनम् पिबन्त्या मनोदेव मनो देव न श्रुप्यति भवापरम् श्रीरामस्य कथा तत्र द्रुताशङ्क्षेपतो मया इदानीम् श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम् श्रीमहादेव उवाच शृणुदेवी प्रवक्ष्यामि गुह्याद्गुह्यतरम् अध्यात्म रामचरितम् रामेणोक्तं पुरा मम तदद्य कथयिष्यामि शृणुताप त्रयापहं यच्छुत्वामुच्यते जन्तु अज्ञानोत्थमहाभयात् प्राप्नोति परमा वृद्धिम् दीर्घायुपुत्र सन्ततिम् भूमि भारेण मग्नाय दश गणानाम् धृत्वा गोरूपमादौ दिविजमुनिजनैः साकंबज साकमब्जा गत्वा लोकं रुदन्ति व्यसनमुपगतं ब्रह्मणे प्राह सर्वम् ब्रह्म ध्यात्वा मुहूर्तं सकलमपि रुदा वेदशेषात्मकत्वात् तस्मात् क्षीरसमुद्र तीरमगमद्ब्रह्माथ देवैर्वृतो देव्या चा किल लोकरुत्तमजनं सर्वज्ञमीशं हरिम् अस्तोषी श्रुति सिद्ध निर्मलपदे स्तोत्रैः पुराणोद्भवै भक्त्या गद्गदया गिराति विमलै आन्दबाष्पैरुहृत ततस् पुरः स्वस्रसदृश प्रभ दिशाम् व्यपनयन्तमः कथञ्चित् दृष्टवान् ब्रह्मा दुर्दश मकृतात्मनाम् इन्द्रनील प्रतिकाशम् स्मितास्यम् पद्मलोचनम् किरीटहारकेऊर् कुण्डलै कटकादिभिः बिभ्राजमानम् श्रीवत् कौस्तुभयप्रभयान्वितम् ी सनकार्यै च पार्षदै परिवेष्टितं शङ्ख चक्रगदापन्न वनमाला विराजितम् स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च ह्रिया भूम्या च सहितं गरुडोपरिसंस्थितम् हर्ष गद्गदया वाचा तोतुमुपचक्रमे ब्रह्मोवाच नतोऽस्मि ते पदं देव प्राणबुद्धीन्द्रियात्मभि यश्चिन्त्यते कर्मपाशात् हृदि नित्यं मुमुक्षुभि मायया गुणमय्या हृदस्य वसिलुम्पसि जगत्तेन न, न ते लेप आनन्दानुभवात्मनः तथा शुद्ध न दुष्टात्मा दान कर्म भी शुद्धात्मना सदा भक्ति मत यत सवांघ्रि दृष्ट चिदोष पुनुत सद्योनृद्यम मुनि सात ब्रह्माद्श्वास सिद्ध्यथम अस्मा पूर्वसे अपरोक्षानुभूत्यर्थम् ज्ञानेभि हृदि भावितः तवाङ्ग्रिपूज्य निर्माल्य तुलसीम् बालया विभो स्पर्धते वक्षसि पदम् लब्ध्वापि श्री सपत् निवत् अत तव भक्ति श्रियोधिक भक्तिम् भेवाभि तद्भक्ता सर्वे दिन अतश्वत्पादकमले भक्तिरेव सदा तु वै संसारामय तप्तानां भेषजम् भक्तिरेव ते इदीम्बुवन्तं ब्रह्माणम् भगवानरी भगवान् हरि किं करोमिति तं वेधा प्रत्युवाचाति हर्षितः भगवन् रावणो नाम पौलस्य तनयो महान् राक्षसानाम् अधिपति मद्दत्त वरदर्पितः त्रिलोकीम् लोकपाल च बाधते विश्वबाधकः मानुषेण मूर्ति तस्य मया कल्याण कल्पितः अतः सम् भूत्वा जहिरेव रिपुं प्रभो श्री श्रीभगवानुवाच कश्यपस्येव रोदत्तोषितेन मे याचिते पुत्रभावाय तथेत्यङ्गीकृतं मया स्व इदानीम् दशरथो भूत्वा तिष्ठति भूतले तस्याम् पुत्रदामे च कौसल्यायाम् शुभे दिने चतुर्धात्मानमेवायम् श्रूयामि तरयोपथक् योगमायापि सीतेति जनकस्य गृहे तदा उत्पत्यते तथा सार्धम् सर्वं संपादयाम्यहं। इत्युक्त्वा तर्दधे विष्णु ब्रह्मा देवानथा ब्रवीत् ब्रह्मोवाच विष्णुर्मानुषरूपेण भविष्यति रघुकुले यूयं सृजद्धं सर्वेपि वानरेष्वञ्च सम्भवान् विष्णुसहाय्यम् कुरुत यावत् स्थास्यति भूतले इति देवान् समादिश्य समाश्वास्य च मेदिनीम् ययो ब्रह्म स्वभवनम् विश्वरः सुखमास्थितः सर्वे हरिरूपधरेण स्थिता सहायार्थमित चतु महाबाला पार्वतवृक्षयोधिने प्रतीक्षमाणा भगवन्तमीश्वरम् इति श्रीमदध्यात्मनारामायणे महामहेश्वरमादे बालकाण्डे द्वितीयसर्गे श्रीसीता रामचन्द्रार्पणमस्तु